चित्रवर्णाय विद्महे सर्परूपाय धीमहि तन्नः केतुः प्रचोदयात् अन्य श्रीकेतुकवचमहामन्त्रस्य पुरन्दरषिः अनुट्टन्दः केतुग्रहो देवता मम केतुग्रहप्रदानसिद्ध्यर्थे च मे विनियोगः धूम्रवर्णम् सजाग चित्राम्बदरं केतुं चित्रगन्धानुलेपनं वैडोर्याभरणं चैव वैडोर्यमकुटोज्वलं चित्रं प्रबोदमारुह्य मेरुं यान्तमदक्षिणं केतुं करालवर्णनं चित्रवर्णं प्रणमामिसलादेवं त्वजाकारं ग्रहेश्वरम् चित्रवर्णः शिरः पादु फादम् मे दूरवर्णकः पादुनेत्रे पिङ्गळाक्षः श्रुतिमे रक्तलोचनः घ्राणम् पातु सुरन्दाभः सिंविकासुदः सिम्मिकासुतः पातुकण्डम् च मे केतुः स्कन्दो वादु गृहादिवः क्षिम् पातु महोदरः सिंहादनकटिं पातुम् पातु महासुरः ऊरू पातु महाशीर्ष जानुनीज प्रकोपनः पातु पादौ जमे रौद्रः सर्वाङ्गम् अविमर्दकः यैरम् अवजम् मेरोः सर्वरोगनिवार भक्ति नित्यं निर्वुख समुच्य